वैशम्पायन उवाच तच्छ्रुत्वा वृत्रः तेभ्यः स्वयमेवान्ववेक्ष्य च खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः महतारथ वृन्देन नानारूपेण वासवह आकाशं समवाकीर्य प्रभवर्ष सुरेश्वरः ततोक्षमात्राव्यसृजन् धाराः शतसहस्रशः चोदिता जलदा खाण्डवम् प्रति असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः खयेवसमशुष्यन्त गताः ततो न मुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा पुनरेव महामेघैरम्भांसि व्यसृजद्बहु अर्चिर्धाराभिसम्बद्धम् धूमविद्युत्समाकुलम् श्रीम्मते आदिपर्व खांडवदाह इंद्र इंद्रक्रोधे पंच विंशतमोध्याय